अथ सप्तत्रिंशः सर्गः तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्यविशारदः प्रत्युवाच महातेजामारीचो राक्षसेश्वरम् सुलभाः पुरुषाराजन् सततम् प्रियवादिनः अप्रियस्य च पथ्यस्य भक्ता श्रोता च दुर्लभः न नूनम् बुध्यसे रामम् महावीर्य गुणोन्नतम् अयुक्तचारश्च पलो महेन्द्रवरुणोपमम् अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसा अपि रामो न सङ्क्रुद्धः कुर्याल्लोकानराक्षसा अपि ते जीवितान्तायनोत्पन्ना जनकात्मजा अपिसीता सीता निमित्तम् च न भवेद् व्यसनम् महत् अपि प्राप्य कामवृत्तम् निरङ्कुशम् न विनश्येत्पुरी लङ्का त्वया सहस राक्षसा त्वद्विदः कामवृत्तो हि दुःशीलः पापमन्त्रितः आत्मानम् स्वजनम् राष्ट्रम् स राजाहन्ति दुर्मतिः पित्रा परित्यक्तो नामर्यादः कथञ्चन न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः न न च तीक्ष्णो भूतानाम् सर्वभूतहिते रतः वञ्चितम् पितरम् दृष्ट्वा कैकेय्यासत्यवादिनम् करिष्यामीति धर्मात्मा दतः प्रव्रजितो वनम् कैकेय्याः प्रियकामार्थम् पितुर्दशरथस्य च हित्वा राज्यम् च प्रविष्टो दण्डका न रामः कर्कशस्तात ना विद्वान्ना जितेन्द्रियः अनृतम् न श्रुतम् चैव नैव त्वम् रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः राजा सर्वस्य लोकस्य देवानामिव वासवः कथम् नु तस्य रक्षिताम् स्वेन तेजसा शरार्चिषमनाधृश्यम् चाप खड्गेऽन्धनम् रणे रामाग्निम् सहसा दीप्तम् न प्रवेष्टम् त्वमर्हसि धनुर्व्यादितदीप्तास्यम् शरार्चिषममर्षणम् चापबाणधरम् तीक्ष्णम् शत्रुसेनापहारिणम् राज्यम् सुखम् च सन्त्यज्य जीवितम् चेष्टमात्मनः नात्यासादयितम् तात अप्रमेयम् हि तत्तेजो यस्य सा जनकात्मजा न त्वम् समर्थस्ताम् भर्तुम् राम चापाश्रयाम् वने तस्य वै नरसिंहस्य सिंहोरस्कस्य भाविनी प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता न सा धर्शयितुम् शक्या मैथिल्योऽजस्विनः प्रिया दीप्तस्येव हुता शस्य शिखा सीता सुमध्यमा किमुद्यमम् यर्थमिमं कृत्वा ते राक्षसाधिप दुष्टश्चेत्त्वम् रणे तेन तदन्तमुपजीवितम् जीवितम् च चा सुखम् चैव राज्यम् चैव सुदुर्लभम् यदीच्छसि चिरम् भोक्तुम् मा कृता रामविप्रियम् स सर्वैः सचिवैः सार्धम् विभीषणपुरस्कृतैः मन्दयित्वा कृत्वा निश्चयमात्मनः दोषाणाम् च गुणानाम् च सम्प्रधार्य बलाबलम् आत्मनश्च बलम् ज्ञात्वा राघवस्य च तत्त्वतः हितम् हितव निश्चित्य क्षमम् त्वम् तव न क्षमम् रणे कोसलराजसूनुना इदम् हि भूय शृणु वाक्यमुत्तमम् क्षमम् च युक्तम् च निशाचराधिप त्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तत्रिंशः